अथ त्रिषष्टम् दशकम् ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भित कम्पितदिक्तटाः सुषमया भवदङ्गतुलाम् गता व्रजपदो परिवारि धरास्त्वया विपुलकरकमिश्रैस्तोय धारा निपातैर्दिशि दिशि पशुपानाम् मण्डले दण्ड्यमाने कुपित हरिकृतान्नः वचनमजित शृण्वन् मा विभीतेत्यभाणीः कुलैः खलु गोत्रो दैवतम् गोत्रशत्रोर्विहितमिह स रुन्ध्यात् को इति सहसितवादी देव गोवर्धनाद्रिम् त्वरितमुदमुमूलो मूलतो बालदोर्भ्यम् तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् दूर तो वारितापे पिक पिमिश्रा धेनु गोपानन धस्ताप निद ध दधत्ता हस्त नैल शैले रपि विहित विलास केलिला पादी लोले सब मि धनूरेक हंडूयती सशुपालास्ोषमीष ते अतिमहान् गिरिरेष तु वामके करसरोरुहितम् धरते चिरम् किमिदमद्भुतमद्रिबलम्विति त्वदवलोकिभिराकथि त्वदवलोकि अहः गोपकैहि, वटोर्गिरिम् व्यथित बाहुरसाववरोपयेत् इति हरिस्त्वयि बद्ध विगर्हणो दिवस सप्तकमुग्रमवर्षयत् अचलति त्वयि देव पदात्पदम् गणित सर्वजले च घनोत्करे अपहृते मरुता मरुताम् पतिस्त्वदभिशङ्कितधिः समुपद्रवत् शममुपेयुषि वर्ष तदा पशुपधेऽनुकुले च विनिर्गते भुवि समुपाहित भूधरः प्रमुदितैः पशुपैः परिरेभिषे धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कश्रमः इति नुतस्त्रिदशैः कमलापते गुरुपुरालयपालयमम् ददात् इति त्रिषष्टम् दशकम्